गणेशपुराणम् उपासनाखण्डम् अध्यायम् 86 क दृष्ट्वासा दृष्ट्वा सा तादृशं बालं स्नेहश्नुतपयोधरा आलिलिङ्गमुदा बालं सती तामूचे मम बालोऽयं गङ्गागम्भीरनिस्वना माख वह गिरेसुदा कृत्ति काम्जादयमक अस्मा यदि चुक्रुशुरातुरां विपद पुरोगमाः। कैलासे देवनिलये गिरिशं चन्द्रशेखरं गौरीविवेशप्रथमं कठिन्यस्तत्स्वबालकाः शिवो गृहीत्वा तं स्वाङ्गे शिरस्याख्रायमन्त्रतः रमयामास परया मुदा गङ्गावह्निषत्त्रियस्था गृहं जग्मो यथागतं तन्नामकरणार्थाय ब्रह्मणं च बृहस्पतिम् आहूय शिव ऊचेत्तौ नामास्य क्रियतामिति ब्रह्मा बृहस्पती ऊचतुः कार्तिके मासि जादोऽयं कार्तिकेय इति स्फुटं नामास्य प्रथमं देव पार्वतीनन्दनोऽपि च शरद्वीपेयमुत्पन्नशरजन्मा ततोऽपि च कृत्तिकाभ्योऽपि जातत्वात् कार्तिकेय इति स्मृतः यतोऽस्यमादरं अयं सुरुर इं पुत्रिताक्य सेनापतिर्भाव सेनानी दिश् दिद तद य महासेन षणान कन्नं त्रिवारं रेदोयते यत्ते न स्कन्दो यमुच्यते तयोस्तु वदतों शक्राद्या आयुः सुराः आननन्दुश्च ने मुंस्तं पुपूजुस्तुष्टुवुर्जगुः रोदसी दिव्यं वाद्यशब्दो रसातलम् तदस्ते प्रार्थया मा सुसेनान्यं प्रणिपत्य च त्रैलोक्यकण्टकं देव जहित्वं तारकासुरं नानाभिषेकसम्भारैः सेनापत्येऽभिषिच्यतं वैदिकैस्त्रान्तिकैर्मन्त्रैर् नाना मुनिसमीरितैः ततोनुज्ञां गृहीत्वा ते दे देवा स्वस्थानमागमन् ऋषयोऽपि निरुद्योगास्पदस्तेषु यथा पुरा सेनान्यां विद्यमानेनो न भयं विद्यते क्वचित् सबालो ववृधेऽत्यन्तं शुक्लपक्षे यथा शशी एकदा बालभावात्स उड्डीय शशिनं ययौ साहसं कुरु बुद्ध्या बृहस्पदिशक्र्या जिगायेन्द्रं सोर्भकः एकदा सुखमासीनं पार्वत्या सहितं शिवं प्रणम्य परिपप्रच सर्वकामार्थसिद्धये स्कन्द उवाच पिधर्मयाश्राविमहाकथा नानाविधा शुभाः सर्वसिद्धिकरं देवपुत्रसम्पत्प्रवर्धनम् सर्वपापकरं चैव धर्मार्थकाममोक्षदं त्रैलोक्यस्य गुरोस्त्वत्स्तृप्तिर्नास्ति तथापि मे वद मे सर्वशत्रूणां जयकारिव्रतं शुभम् ईश्वर उवाच सम्यक् पृष्टं त्वया स्कन्दसर्वलोकोपकारकम् व्रतं देखं प्रवक्ष्यामि सर्वसिद्धिकरं नृणाम् सर्वपापक्षयकरं धर्मार्थकाममोक्षदम् सर्वशत्रुक्षयकरम् पुत्रसम्पत्प्रवर्धनम् अलक्ष्मीसङ्कटकरं गणनाथस्य तोषकृत यकरो दिनरो भक्र्या सम्पूज्य इच्छाविकारी भवति सृष्टिस्थित्यन्तकृत्य सः दर्शनात् तस्य चान्येषां महापापं लयं व्रजेद नात्येषां स्कन्दवरद चतुर्थी व्रतसाम्यथा एवमाकर्ण्यवचनं सेनानी शङ्करेदम् पुनः पप्रपिदरमहिमानं व्रतस्य सः स्कन्द उवाच विस्तरेण मम ब्रूहि माहात्म्यं व्रतसम्भवम् कस्मिन्मास्य दिने चास्य प्रारम्भ क्रियते हर को विद्धि किं फलं चास्य कस्याभूत् प्रत्ययोस्य च येदे सकलं ब्रूहि यदि प्रसिद्धये, श्री तुष्टिशंकरा व्रत स्री गणेशे ओम।